हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे प्रथमस्कन्धे नवमोऽध्यायः श्रोवाच यदा विनिर्गता निद्रा देहात् तस्य जगद्गुरो निद्रास्य नासिका बाहू कृतेभ्य कथोरसः निःसृत्य गगने तत्सु तामसी शक्ति उत्तमा उत् पृष्ठ जगन्नाथो जुम्ब्रमाण पुनः पुनः तदा पश्यत् तं तत्र भयत्रस्तं प्रजापतिम् उवाच महातेजा मेघगम्भीरया गिरा विष्णुवाचे उवाच किम् मागतोऽसि भगवन्तपस्यक्त्वा प्रपद्मज कस्याचिन्ता सुरोसि तं तत्कर्णमलजो देव दैत्यो च मधुकैटभौ हन्तुं मां समुपायातो घोररूपो महाबलौ भयात्रयो समायात त्वत्समीपं जगत्पते त्राहे मां वासुदेवाद्य भयत्रस्तं विचेतनम् विष्णुवाचे तिष्ठाद्य निर्भयो जात तौ हनेष्याम्यहं गिले सिद्धाया जग्मतु मूढौ मत्समीपं गतायुषौ सोत उवाच एवं वदति देवे शेदानभव महामलौ विचिन्वा नावजं चोभौ मदगर्वितो निराधारो जले तत्र संस्थितौ विगतज्वरौ तौ चतुर्मदोन्मत्तौ ब्रह्माण्डं मुनिषत्तमः पलायित्वा समायातः सन्निधौ अस्य किं ततः युद्धम् कुरु हनिष्याव पश्यतोऽस्तेव सन्निधौ पश्चादेन हनिश्याव सर्व... सर्वभोगो परिस्थितम् तम् मध्ये कुरु दासो दासोऽस्मीति च वावद सुत उवाच तच्छ्रुत्वा वचनम् विष्णुत उवाच जनोर्दनः कुरुतः समरुं कामं मया दानवपुङ्गवौ हरिष्यामि मदं चाहयुवयो मत्तयोगिल आगच्छतम् महाभागो श्रद्धा चेद्वान् महाबलौ सुत उवाच श्रुत्वा तद्वचनं शोभक्रोधव्याकुललोचनौ निराधारो जलस्थौ च युद्धोद्युक्तो बहूवतुः मधुश्च कुपितस्तत्र हरिणा सह संयुगम् कर्तुं प्रचलितपूर्णं कैटभस्तु तथा स्थितः बाहुयुद्धं तयोरासीन् मल्लयोरिव मत्तयोः सन्ते मधु कैटभस्तु सङ्ग्रामम् अकरोत् तदा पुनर्मधु कैटभश्च युयुधा पुनः पुनः बाहुयुद्धेन रागान्धो विष्णुना प्रभविष्णुना प्रेक्षकस्तु तदा ब्रह्मा देवी चैवान्तरी तरीक्षकाय क्व गतं मे बलं शौर्यं कद्माच्चेमावयनामयौ किमत्र कारणं चिन्त्य विचार्य मनसा तिह इति चिंता परं दृष्ट्वा हरिं हर्षे भव। भौ ऊचतु मधोन्मत्तो मेघ गम्भीरनिस्वरौ तव नो चेद् बलं विष्णो यदि श्रान्तोऽसि युध्यते ब्रूही दासोऽस्मि कृत्वा शिरसि चाञ्जलिम् न चेद्युद्धम् कृ विश्वाद्य महामते हत्वा तमन्यश्यावपुरुषम् च दुर्मुखम् श्रोत उवाच श्रुत्वा तद्भाषितम् विष्णुतयो तस्मिन् नवोदधौ उवाच वचनं शक्ष्णम् सामपूर्वम् महामनः हरि उवाच भीते त्यक्तशास्त्रे पतिते बालके तथा प्रहरन्ति न वीराति धर्म एष सनातनः पञ्चवर्षसहस्राणि कृतं युद्धं मयाप्य एकोऽहं भ्रात्रो वाञ्च बलिनो सदृशो तथा कृतं विश्रमणं मध्ये युवाभ्यां च पुनः पुनः तथा विश्रमणं कृत्वा युद्धेयं न संचय तिष्ठतं हि युवान् तावत् बलवन्तो मदत्कटौ विश्रम्यहं करिष्यामि युद्धं वान्याय न्यायमार्गतः श्रुतो वाच इति श्रुत्वा वचस्तस्य विश्रब्धोरा दानवोत्तमौ संस्थितो दूरतः तत्र सङ्ग्रामे अति अतिदूरे च तव दृष्ट्वा वासुदेव च दध्यो च मनसा तत्र कारणं मरणे तयो चिन्तनाज्ञानमुत्पन्नं देवी दत्तर्वरो भव कामं वाञ्छितमरणो न मम्ले तूरदस्त्रिमौ वृथा मया कृतं युद्धम् श्रमोऽयं मे वृथा गतः करोमि च कथं युद्धम् एवम् ज्ञाता विनिश्चयम् अकृते च तथा युद्धे कथम् एतो गमिष्यतः विनाशम् दुःखदो नित्यम् दान्धवो वरदर्पितौ भगवत्यावरो दत्तस्य च मरणं चेच्छया कामं दुःखितोऽपि न वञ्चति पुरग्रस्तोऽपि दीनोऽपि न मूर्षति कश्चन कथं चेमो मनोन्मत्तो मत्तु कामो भविष्यतः नन्वद्य शरणं यामि विद्यां शक्तिं सुकामदाम् विनातया प्रसन्नया एवं सञ्चिन्त्यमानस्तु गगने शिवाम् अपश्यद् भगवान् विष्णुयोग निद्राम् मनोहराम् कृताञ्जलियमेयात्मा त्वाञ्चतुष्टावयोगवेत् विनाशार्थम् तयो तत्र वरदाम् भुवनेश्वरीम् विष्णुवाच नमो देवि महामाये सृष्टिसंहारकारिणी अनादिनिधने चण्डी भुक्तिमुक्ति प्रदेशवे न ते रूपम् विजानामि सगुणम् निर्गुणम् तथा चरित्राणि कुतो देवी सङ्ख्यातीतानि यानि ते अनुभूतो मया तेज्य प्रभाव चाति दुर्घटः यदहं निद्रयालेन सञ्जातोऽस्मि विचेतनः ब्रह्मणा चाति यत्नेन बोधितोऽपि पुनः पुनः न प्रबुद्ध सर्वथाहम् सङ्कोचित षडीन्द्रिय अचरणत्वम् सम्प्राप्त प्रभावात् त्वया मुक्तः प्रबुद्धोऽहम् युद्धं च बहुधा कृतं श्रान्तोऽहं न च तौ श्रान्तौ त्वया दत्तवरोवरौ ब्रह्माणम् हन्तु मायातो दानव मदगर्वितौ आहूतौ च मया कामं द्वन्द्वयुद्धाय मानवे कृतं युद्धं महाघोरं मया ताभ्यां महार्णवे मरणे वरदानं ते ततो ज्ञातं महाद्भुतम् ज्ञात्वाहम् चरणम् प्राप्य प्रदाम् चरणप्रदाम् साहाय्यम् कुरु मे हम युद्ध युद्धकर्मणा दृप्तो तौ वरदानेन तव देवातिनाशने हन्तुम् मामुद्यतो पापो किम् करोमि क्वयामि च इत्युक्ता सा तदा देवी स्मितपूर्वम् उवाच प्रणमन्तम् जगन्नाथम् वासुदेवम् सनातनम् देवदेव हरे विष्णु कुरु युद्धम् पुनः स्वयम् वञ्चयित्वा तिमोऽशूरो हन्तव्यो च विमोहितो मोहयिष्याम्यम् नूनम् दानभो वक्रय दृशा जहि नारायणाशूतम् मम माया विमोहितौ श्रुतवाच तच्छ्रुत्वा वचनम् विष्णु तस्या प्रीतिरसान्वितम् सङ्ग्रामस्थलमासाद्य तस्थोत्तत्र महालवे तदायातो च द्यौ वीरो युद्धकामो महाबलो वीक्ष्य विष्णुं स्थितं तत्र हस्तयुक्तो बभूवतु तिष्ठतिष्ठ महाकाम कुरु युद्धं च दुर्भय दैवाधीनो विधित्वाद्य नूनं जये पराजयो सबलो जयमाप्नोति दैवाद्येति दुर्बलः सर्वथैव न कर्तव्यो हर्षशोको महात्मना पुरा वै बहवो दैत्याजिता दानवैरिणा अधुना चावयो सार्धं युध्यमान पराजितः सुत उवाच इत्युक्त्वा तौ महाबाहु युद्धाय समुपस्थितौ वीक्ष्य विष्णोर्जघानाशु मुष्टिनाद्भुतकर्मणा तोऽप्यतीवलोन्मत्तौ जघ्नतुर्मुष्टिना हरिम् एवम् परस्परं जातं युद्धम् परमदारुणम् युद्धमानो भावीर्यो दृष्ट्वा नारायण सदा अपश्यत्सम् मुखम् देव्या कृत्वा दीनां दृशं हरि सुत उवाच तम् वीक्ष्य तादृशं विष्णुम् करुणारससंयुतम् जासां राक्षे वीक्षमाणा तौ जगानक्षे च कामपाणैवापरे मन्दस्मितयुते कामम् प्रेमभावयुतनु दृष्ट्वा मुहतु पापो देव्या वक्रविलोकनम् विशेषमिति मन्वानो कामबाणातिपीडितौ वीक्षमाणोऽ स्थितो तत्र ताम् देवीम् विशदप्रभाम् हरिणापि च तद्दृष्टम् देव्या तत्र चिकीर्सितम् मोहितौ भगवान् कार्यवित्तमः उवाच तौ हसन्लक्षणम् मेघ गम्भीर य गिरा वरं वर यतां वीरो युवयोर्योभि वाञ्छितः ददामि परमप्रीतो युद्धे न युवयो दानव बहुवो दृष्टा युद्धमाना मया युवयो सदृशः कोऽपि न दृष्टो न च वैश्रुतः तस्मात् तुष्टोऽस्मि कामं वै निलेन च भ्रातृश्च वाञ्छितम् कामम् पयच्छामी महाबलौ सुत उवाच तच्छ्रुत्वा वचनम् विष्णो साभिमानो स्मरातुरौ वीक्षमाणो महामायम् जगदानन्दकारिणीम् तमुचतु च कामार्तो विष्णुम् कमललोचनौ हरेणयाचको तं किं दातुम् यहेच्छति तदा वै तुल्यं देवे च दातारो नवनयाचकौ प्रार्थय त्वं ऋषि केश मनोभिल चिदम्बरं तुष्टौ स्वस्तव युद्धेन वासुधे वा भूतेन च तयोचनं श्रुत्वा प्रत्युवाच जनार्दनः भवेतां मध्यमे तुष्टो मम वध्यौ भवति सूतौ वाच वचनं विष्णो दानु चाद्विस्मितौ वञ्चितौ इति मन्वानौ तत्तस्थतु शोकसंयुतौ विचार्य मनसा तौ तु दानवो विष्णुमोचतुः सर्वं जलमयं भूमिं स्थलविवर्जिताम् हरे योयं वरो दत्त त्वया पूर्वं जनार्दन सत्यवागसि देवेश देही तं वारं निर्जले विपुरे देशे हनस्व मधुसूदन वध्या भवत मां तु भवतः सत्यवाग्भव माधव तदा विष्णुतौ वाच हसन् हरि अन्मध्ये निर्जले विपुले स्थले इत्युक्त्वा देव देवे च ऊरु कृत्वा तिविस्तरौ तत्र निर्जलं च जलोपरि नास्त्यत्र दानवो वारि शरसि मुञ्चतां अहमद्यैव भविष्यामि च वान् तथा तदाकर्ण्यं वच्यम् विचिन्त्य मनसा च तौ वर्धयामासेहं योजनानां सहस्रगम् भगवान् द्विगुणं चक्रे जघनम् विस्मितौ तदा शीर्षे सन्दधताम् तत्र जगने परमाभूते रसाङ्गेन तदा छिन्ने विष्णुना प्रभविष्णुना जघनोपरिवेगेन प्रकृष्टे शिरसीय तयोः गतप्राणो तदा दातो दानवो मधुकैटभौ सागरः सकलो सा व्याप्त तदा वै मेदसोतयो मेदिनीति ततो दातं नाम पृथ्व्या समन्ततः अभक्ष्या मूर्तिकातेन कारणेन मुनीश्वरा इति वः कथितं सर्वं यत् पृष्टोऽस्मि विद्या महामाय सेवनीय सदाबुधै आराध्या परमाशक्ति सर्वैरपि सुरासुरे नाथः परत्रम् किञ्चिदधिकं भुवनत्रये सत्यं सत्यं पुनः सत्यं वेदशास्त्रार्थ निर्णयः पूजनीय पराशक्ति निर्गुणा सुगुणाथवा इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्रं हरी कृते प्रथमस्कंधे हरिम मधुकर्णनम दाम नवमोध्याजगदंबिर्पणमस्तु